हरि श्री श्रीसीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे त्रिंश सर्गः सीताया वनगमनाय भृशम् आग्रहम् विलापम् व्याकुलताम् च अवलोक्य श्रीरामेण तस्यै स्वेन सह वरे चलितुम् अनुज्ञा प्रदानम् पितुर्मातुर् गुरूणाञ्च सेवाय महत्तस्य वर्णनम् वनगमनोपगमनाक्रमाय गृहवस्तूनि ब्रह्मणादिभ्यो दातुम् सीताम् प्रत्यादेशदानञ्च सान्त्वमाना तु रामेण मैथिली जनकात्मज वनवासनिमित्तार्थम् भर्तारम् इदमब्रवीत् सा तू तम् उत्तम संविघ्ना सीता विपुलवक्षसम् प्रणया चाभिमाना परिचीक्षे पराघवम् किम् त्वाम् मन्यत वैदेहि मिथिलाधिपः रामजामातनम् प्राप्य श्रियम् पूरुष विग्रहम् अनृतम् बत लोकोऽयम् अज्ञानाद्यदि वक्ष्यति तेजो परम् रामे तपतीव दिवाकरे किम् हि कृत्वा विषन्नस्तम् कुतो वा भयमस्ति ते यत्परीत्यक्तु कामर्थम् मामनन्यपरायणाम् जिमर्थेन सुतम् वीरम् सत्यवन्तम् मनोव्रताम् सावित्रीमिव माम् विद्धि त्वम् आत्मवशवर्तिनीम् मनसा तन्यम् द्रष्टास्मि स्वदृतेन घ यथाञ्जा कुलपांसी स्वयम् तु भार्याम् कौमारीम् चिरम् अध्योषितां सतिम् शैलो चैव मां परेभ्यो दातुमिच्छसि यस्य पथ्यञ्जलापाथ यस्य चार्थेव रुध्यत्से सन्तस्य भव वैश्यश्च विधेयश्च सदा नख स्व मां मनादाय न सम्प्रसितुमर्हसि तपो वा यदि वारण्यम् स्वर्गो वा स्यात्त्वया सह न च वे भविता तत्र कश्चित् परिश्रमः पृशत तव गच्छन् च विहारशेनेष्विव कुशकाशरैषिका मस्पर्श मार्गे मम सह त्वया भवात समुद्भूतम् जन्मान् अवकरिष्यति रजो रमण तन्मन्ये परार्घ्यमिव चन्दनम् शाद्बलेषु यदाशिष्ये वनान्तर्वनगोचर कुथास्तरेण युक्तेषु किञ्च सुखकरम् ततः पत्रम् बोलम् फलं व्यतु अल्पम् वा यदि वा बहु दास्यसे स्वयमाहृत्य तन्मे ब्रूत सरोरसोपमम् न ना मातु नापितु तत्र स्मरिष्यामि न भेश्मनः आर्तवान् निपभुञ्जना पुष्पाणि च फलानि च न च तत्र तथा किञ्चित् विप्रियम् मत्कृते नचते च ते शोको न भविष्यामि दुर्भरा यत्त्वया सह सर्गो निरतो यत्त्वया विना इति जानन् परम् प्रीतिम् गच्छ राम मया सह एवम् अव्यग्राम् वनम् नैव नैषसे विषम् एव पास्यामि मावशं वशम् गमम् पश्चादपी हि दुःखेन मम नैवास्ति जीवितम् उज्झिताय स्वयानाथ तदैव मरणम् वरम् इमम् हि सहितुम् शोकम् घोर्तम् अपि नोत्सहे किम् पुनर् च दुःखित इति सा शोकसन्तप्ता विलप्य करुणम् बहु चुक्रोशपतिमाय सा भृश मलिंग्यवर स बहुर्वाक्य दिग्धरी वे गजांगना चिस तम बापम ममोचा निवा तफटिंगाशम वारी सन्तापस नेत्राभ्यां परीशुश्रव पंकोक मलचंद्राभ कमायतलोचनम् पर्यशुष्यतमापेण जलोद्धूतम् इवाम्बुजम् साम् परिष्वज्यबाहुभ्याम् वितन्यामिव दुःखिताम् उवाच वचनम् राम परिविश्वासयन्तदा न देवी बत दुःखेन स्वर्गम् अप्यभिरोचये न हि मेस्ति भयम् किञ्चित् स्वयम्भो इव सर्वतः तव सर्वम् अभिप्रायम् अविज्ञाय शुभ नदे वासम् न रोचेरण्ये शक्तिमान्नपि रक्षणे यत् रुचास्ति मया सार्धम् वनवासाय मैथिली न मया शक्य प्रीतिरात्मवता यथा धर्मस्तु गजनासूरु सद्भिचरितः पुरः तं चाहम् अनुवर्तिष्ये यथा सूर्यम् सुवर्चल न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनी वचनम् तन्न आज्ञाम् चाहम् व्यतिक्रम्य नाहम् जीवितुमुत्सहे स्वाधीनम् कथम् दैवम् प्राकारैभिराध्यते स्वाधीनम् च मतिक्रम्य मातरम् पितरम् गुरुम् यत्र त्रयम् त्रयो लोक पवित्रम् तत्समम् भुवि नान्यदस्ति शुभापाङ्गे तेनेदम् अभिराध्यते न सत्यम् दानमानो वा यज्ञो तथा बल करासिते यथा सेवा पितुर्मता स्वर्गो धनं वा धान्यं वा विद्यापुत्रा सुखानि च गुरुवृत्य अनुरोधेन न किञ्चिदपि दुर्लभम् देवगन्धर्वगो लोकान् ब्रह्मलोकान् तथा परान् प्राप्नुवन्ति महात्मानो मातापितृ समापिता यथा शास्त्री सत्यधर्मपथे स्थितः तथा वर्तितुमिच्छामि स हि धर्मः सनातनः मम सन्नामतीति नेतुम् तम् दण्डकवनम् वसिष्यामीति सा त्वम् माम् अनुयातुम् सुनिश्चिता सा हि धिष्ठा नवद्याङ्गी वनाय मदिरेक्षणे अनुगच्छे स्वमाम् भीरु सः धर्मचरी भवे सर्वथा सदृशम् सीते मम कुलस्य च व्यवसायम् अनुक्रान्त त्वम् अपि अतिशोभनम् आरभस्व शुभश्रोणी वनवासे क्षमा क्रियः नेदानीम् सीते स्वर्गोऽपि मम रोचते ्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् जै चासन् समानेभ्यः सत्त्वं संतरस्व च मां चिरम् भूषणानि महर्हाणि वरवस्त्राणि च रमणीया च एकेचित् क्रीडार्थाश्चाप्तुपष्करः शैली यानि यानानि मवचाल्यानि यानि च देयी स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् अनुकूलम् तु सा भर्तु ज्ञात्वा गमनमात्मनः क्षिप्रम् प्रमुदिता देवी दातुम् एव प्रचक्रमे ततः प्ररुष्टा प्रतिपूर्ण मानसा यशस्विने भर्तुरवेक्ष्य धनानि रत्नानि च दातु मङ्गना पृचक्रमे धर्मभूताम् मनस्विनी इत्याश्री श्रीमद् रामेणे वाल्मीकि अधिकाव्य अयोध्या कण्डे त्रीं च सर्ग श्री